बालकाण्डं सर्गं सिक्स् विश्वामित्रोधतं प्राह राघवं सह लक्ष्मणं गच्छामो वत्समिथिलां जनकेनाभिपालितां दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुम् सहराखवः तस्मिन्काले नाविकेन ना निषिद्धो रघुनन्तनः नाविक उवाच क्षालयामि तव पादपङ्कजं नाथ दारुदृषधो किमन्तरं मानुषीकरणचूर्णमस्ति पादयो पादरिधि कथा प्रधयसी पदाबुज विमल पश्चात्म तीरमहम नी नोचे तरी सद्युवती मले न सैद्विभो विधिकुटुबिवा क्षाल पाद परं तदो गताः कौशिको रघुनाथेन सहितो मिथिलां ययौ विदेहस्य पुरं प्रादर्षिवाढं समाविशद प्राप्तं कौशिकमाकर्ण्य जनको दिमुदान्वितः पूजाद्रव्याणि सङ्गृह्य सोपाध्यायसमायययौ दण्डवत्प्रणिपत्याथ पूजयामास कौशिकं पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ द्योदयन्तौ दिशसर्वाश्चन्द्रसूर्याविवापरौ कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ मनःप्रीतिकरौ मेद्य नरनारायणाविव प्रत्युवाचमुनिप्रीदो हर्षयन् जनकं तदा पुत्रौ दशरथस्यै भ्रातरौ रामलक्ष्मणौ मखसंरक्षणार्थाय मया नी तौ पितुः पुराद आगच्छन् राघवो मार्गे ताडकां विश्वखादिनीं शरेणैकेन हधवान्नोदितो मेदिविक्रमः तदो ममाश्रमं गत्वा मम यज्ञविहिंसकान् सुबाहुप्रमुखान् हत्वा मरीचं सागरे क्षिपद ततो गङ्गातडे पुण्ये गौतमस्याश्रमं शुभं गत्वा तत्र शिलारूपा गौतमस्य वधूस्थिता पादपङ्कज संस्पर्शात् कृता मानुषरूपिणी दृष्ट्वा हल्यां नमस्कृत्य तया सम्यक् इदानीं द्रष्टुकामास्ते गृहे माहेश्वरं धनुः पूजितं राजभिसर्वै दृष्टमित्यनुशुश्रवे अधो दर्शय राजेन्द्रशैवं दृष्ट्वा अयोध्यां जिगमिषुप्तरं द्रष्टुमिच्छति इत्युक्तो मुनिना राजा विदि पूजया पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा तद सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरं जनक उवाच विश्वेश विश्वेशचापं रामाय दर्शय तदो गदे मन्त्रिवरे राजा कौशिकमब्रवीत् यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणं तदा मयात्मजासीदा दीयते राघवाय तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितं शीघ्रं दर्शय चापाग्र्यं रामायामिद तेजसे एवं ब्रुवधिमौनीशे आगताश्चापवाहकाः चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः खण्डाशदसमयुक्तं मणिवज्रादिभूषितं दर्शयामास रामाय मन्त्री मन्द्रयदाम्बरः दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढं गृहीत्वा वामहस्तेन लीलया तोलयन्धनुः आरोपयामास गुणं पश्यत् स्वकिल राजसु ईषदाकर्षयामास पाणिना दक्षिणेन हृत्सारो दिशब्देन पूरयन् दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् आच्छादयन्धकुसुमैर्देवास्तुतिभिरीडिरे देवदुन्दुभयो नेदुर्न नृतुश्चाप्सरो गणाः द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्यरघुद्वहं विस्मयं लेभिरे सीता मातरोऽन्तः पुराजिरे सीतास्वर्णमयीं मालां गृहीत्वा दक्षिणे करे स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता मुक्ताहारैकर्णपत्रैकोणचरणनूपुरा दुकूलपरिसंविदा वस्त्रान्तर्व्यञ्चिदस्तनी रामस्योपरि निक्षिप्य स्मयमानामुदं ययौ तदो मुमुदिरे सर्वे राजधारास्वलङ्कृतं गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनं तदोब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः भो कौशिकमुनिःश्रेष्टपत्रं प्रेषय सत्वरं राजा दशरथशीघ्रमागच्छतु स सपुत्रकः विवाहार्थं कुमाराणां सदारसहमन्त्रिभिः तथेति प्रेषयामास दूधान् त्वरिदवित्क्रमान् ते गत्वा राजशार्दूलं रामश्रेयोन्यवेदयन् श्रुत्वा रामकृतं राजा हर्षेण महदाप्लुतः मिथिलागमनार्थाय त्वरयामासमन्त्रिभिः गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः रथमानयमे शीघ्रं गच्छाम्यद्यैवमाचिरं वसिष्ठस्त्वग्रदो यादौ सदारसहितोऽग्निभिः राम मातृसमदाय मुनिर्मे भगवान् गुरुहु एवं प्रस्ताप्य सकलं राजर्षिर्विपुलं रथं महत्या शेनया सार्धमारुह्य त्वरितो ययौ आगदं राघवं श्रुत्वा राजा हर्षसमाकुलः प्रत्युज्जगाम जनक सदानन्दपुरोध यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः तदो हृष्टो दशरथो रामं वचनमब्रवीत् दिष्ट्या पश्यामि ते राममुखं फुल्लाम्बुजोपमं मुनेरनुग्रहात्सर्वम् रा सम्पन्नं मम शोभनम् इत्युक्त्वा ख्राय मूर्धानमालिङ्ग्य च पुनः हर्षेण महदाविष्टो ब्रमानन्दं गतो यथा ततो जनकराजेन मन्दिरे सन्निवेशितः शोभने सर्वभोगाढ्ये सदारसुतसुखी तदशुभे लग्ने सुमुहूर्ते रघुत्तमम् आनयामास धर्मज्ञो रामं सभ्रातृकं तदा रत्नस्तम्भसुविस्तारे सुविधाने सुतोरणे मण्डपे सर्वशोभाढ्ये मुक्ता पुष्पफलान्विते वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः सुवासिनीभिः परिदो निष्ककण्डीभिरावृते भैरीदुन्दुभिनिर्घोषायुर्गीतनृत्यै समाकुले दे पीठे न्यवेशयत चैव दिव्यरत्चिस्वर्णपीठे रामेशयत वसीष्ठ कौशिकपुरो यहा क्रम पूजयोभ स्थापय सी ज्व्वि यहा सीतामानीयशोभाढ्यां नानारत्नविभूषितां सभार्यो जनकः प्राया रामं राजीवलोचनं पादौ प्रक्षाल्यविधिव तदपोमूर्ध्न्याधारयत् या धृता मूर्ध्नि सर्वेण ब्रह्मणा मुनिभिः सदा ततः सीतां करे धृत्वा साक्षतोदकपूर्वकं रामाय प्रददौ प्रीत्या पाणिग्रहविधानः सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिदा दीयते मे सुधातुभ्यं प्रीतो भव रघुत्तम इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् मुमोदजनको लक्ष्मीं क्षीराब्धिरिव विष्णवे उमिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके भरताय ददावेकां शत्रुघ्नाय परां ददौ चत्वारो दरसम्पन्नाभ्राधरशुभलक्षणाः विरेजुःप्रजया सर्वे लोकपाला इवापरे तदोब्रविद्वसिष्ठाय विश्वामित्राय मैथिलः जनकस्वसुतो दन्तं नारदेनाभिभाषितं यत्भूमि विशुद्ध्यर्थं कर्षदो नमे मे सीतामुखात् समुत्पन्ना कन्यकाशुभलक्षणा तामद्राक्षमहं प्रीत्या पुत्रिका भावभावितां अर्पिता प्रियभार्यायै शरश्चन्द्रनिभानना ये कदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते रणयन्महदीं वीणां गायन्नारायणं विभुं पूजितसुखमासीनो मामुवाच सुखान्वितः शृणुष्वचनं गुह्यं तवाभ्युदयकारणम् परमात्मा परमात्माषिकेशो भक्ताह काम्यवण से वहाय च जाम यदि ख्याद मयाषवेशधृक आस्ते दशरधि भूवा चतुर्थ परमेश योगमायापि सीतेधि जादा वै अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः नानेभ्य पूर्वभार्यैषा रामस्य परमात्मनः इत्युक्त्वा प्रययौ देवगतिं देव मुनिस्तदा तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते कथं मया राघवाय दीयते जानकी शुभा इति चिन्ता समाविष्टकार्यमेकमचिन्तयं मत्पिता महगेहेतु न्यासभुधमिदं धनुः ईश्वरेण पुराक्षिप्तं पुरदादनन्तरं धनुरेदर्पणं कार्यमिति चिन्त्य कृतं तथा सीतापाणिग्रहार्थाय सर्वेषां माननाशनं त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः अद्य मे सफलं जन्म राम त्वां सहसीदया एकासनस्तं पश्यामिभ्राजमानं रविं यथा त्वत्पादाम्बुधरो ब्रह्मसृष्टिचक्रप्रवर्तकः बलिस्त्वत्पादसलिलम् धृत्वा बुद्धिविजाधिपः त्वत्पादपांशु संस्पर्शादहल्या भर्तृशापदः सद्य एव विनिर्मुक्ता कोऽन्यस्तोत्तोऽधिरक्षिता यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं भवभयम् चिदकालचक्रैः यन्नामकीर्तनपरा जिददुःखशोका देवास्तमेव शरणं सददं प्रपद्ये इति स्तुत्वा नृपः महात्मने दीनाराणां कोटिशतं रथा तदा नियुदं नियुतं प्रादाद्गजानां षट्शतं तथा पत्नीनां लक्षमेकं तु दासीनां त्रिशतं ददौ दिव्याम्बराणि हाराञ्च मुक्तारत्नमयोज्ज्वलान् सीतायै जनकप्रादात् प्रीत्या दुहिधृवत्सलः वसिष्ठादीन् सुसंपूज्य भरदं लक्ष्मणं तथा पूजयित्वा यथा तथा दशरथं नृपम् प्रस्थापयामास नृपो राजानं रघुसत्तमं सीतामालिङ्ग्यरुदतीम् मातरसाश्रुलोचनाः श्वश्रू शुश्रूषणपरा नित्यं राममनुव्रता पादिव्रत्यमुपालम्ब्य तिष्टवत्से यथा सुखम् प्रयाणकाले रघुनन्दनस्य भैरीमृदङ्गानकतूर्यघोषः स्वर्वासि तूर्य भूद भूद स्वीभरीशूर्ूतभयूद्रीमद्यात्मणे उमहश्वर संवाद बाठे षर्ग ओम